अथ अष्टमोऽध्यायः अर्जुन उवाच किम् तद्ब्रह्म किमध्यात्मम् किम् कर्म पुरुषोत्तम अधिभूतम् च किम् प्रोक्तम् अधिदैवम् किमुच्यते अधियज्ञकथङ् कोत्र देहेऽस्मिन् मधुसूदन प्रयाणकाले च कथम् ज्ञेयोऽसि नियतात्मभिः श्रीभगवानुवाच अक्षरम् ब्रह्म परमम् स्वभावोऽध्यात्ममुच्यते भूतभावोद्भवकरः विसर्गकर्म सञ्ज्ञितः अधिभूतम् क्षरो भावः पुरुषश्चाधिदैवतम् अधियज्ञोऽहमेवत्र देहे देहभृतां वर अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् यः प्रयाति समद्भावम् याति नास्त्यत्र संशयः यम् यम् वापि स्मरन् भावम् त्यजत्यन्ते कलेवरम् तम् तमेवैति कौन्तेय सदा तद्भावभावितः तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च मयि अर्पितमनो बुद्धिः मामेवैषस्य संशयम् अभ्यासयोगयुक्तेन चेतसा नान्यगामिन परमम् पुरुषम् याति पार्थनु चिन्तयम् कविम् पुराणम् अनुशासितारम् अणोरणीयान्समनुस्मरेद्यः सर्वस्य धातारमचिन्त्यरूपम् आदित्यवर्णम् तमसः परस्ता प्रयाणकाले मनसाचलेन भक्त्या युक्तो चैव भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् सतम् परम् पुरुषमुपैति दिव्यम् यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो यत वेतरागाः यदिच्छन्तो ब्रह्मचर्यञ्चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये सर्वद्वाराणि संयम्य मनोहृदि निरुध्य च मूर्ध्न्याधायात्मनः प्राणम् आस्तितो योगधारणा ओमित्येकाक्षरम् ब्रह्म व्याहरन् मामनुस्मरन् त्यजन् देहम् स्याति याति परमाङ्गतिम् अनन्यचेता सततम् यो मां नित्यशः तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् नाप्नुवन्ति महात्मानः संसिद्धिं परमाङ्गताः आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन मामुपेत्यतु कौन्तेय पुनर्जन्म न विद्यते सहस्रयुगपर्यन्तम् अहर्यद्ब्रह्मणो विदुः रात्रिम् युग सहस्रान्ताम् तेहो रात्रविदो जनाः अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्त भूतग्राम स एवायम् भूत्वा भूत्वा प्रलीयते रात्र्यागमे वशः पार्थ प्रभवत्यहरागमे परस्तस्मात्तु भावोऽन्यो व्यक्तो व्यक्तात् सनातनः यस्य सर्वेषु भूतेषु नश्यत्सु न विनश्यते अव्यक्तोऽक्षर इत्युक्तः तमाहु परमा गतिम् यम् प्राप्य न तद्धाम परमं मम पुरुषः स परः पार्थ यस्यान्तस्थानि भूतानि येन सर्वमिदं ततम् यत्र काले त्वनावृत्तिम् आवृत्तिं चैव योगिनः प्रयातायान्ति तं कालम् वक्ष्यामि भरतर्षभ अग्निर्ज्योतिरः शन्मासा उत्तरायणम् तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् तत्र चन्द्रमसं ज्योतिः योगी प्राप्य निवर्तते शुक्लकृष्णे गतिह्येते जगतः मते एकया यात्यनावृत्तिम् अन्यया वर्तते पुनः नैते श्रुती पार्थ जानन् योगी मुह्यति कश्चन तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुना वेदेषु यज्ञेषु तपःसु चैव दानेषु यत् पुण्यफलं अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नाम अष्टमोऽध्यायः